मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं तर्टिफोर् रुक्माङ्गदचरितम् श्रीगणेशाय नमः दक्ष उवाच वदपूजां विधियुतां गणेशस्य सविस्तरां मानसीं बाह्यरूपां च सर्वसिद्धिप्रदायिनीम् गणेशलोकगम सर्वहात्म्यं कथयस्वे कीदृशो निजो लोको मुने के नभ्यसे मुद्गल उवाच अत्रे कथयिषनमं शुभम महाग सर्वसिद्धिप्रदायकं पुरादेकथितं स्थानं गणेशस्य महात्मनः कार्तिकेयवराजादं लक्षवैनायकात्मकं तत्र राजा बभूवापि सर्वशास्त्रविशारदः ऐलशस्त्रास्त्रतत्त्वज्ञो धर्मशीलश्च सत्यवाक् सदा गणेशभक्तश्चाभजद्विघ्नेश्वरं सदा सार्वभौमसुविख्यातो गाणपत्यप्रिया भवत् तत्रा जगामगाणेशो गार्ग्यसर्वार्थको विदः तं प्रणम्यप्रपूज्यैव पप्रच्छैलो महायशाः अैल उवाच स्वामिं स्त्वं गणराजस्य भक्तस्तादृशयोगधृकसाक्षाद्गणपधि किं वा त्वमेवात्र न संशयः मयूरेश अवतारे त्वं मयूरेश समन्वितः स्थितस्तत्र त्वया विप्र मयूरेशो निरीक्षितः धन्यस्त्वं योगिनां मध्ये प्रत्यक्षं गणनायकं मित्रं कृत्वा सुहर्षेणाहो तिष्ठसि विशेषतः मयूरेशस्य विप्रेषाज्ञया योगविदाम्बर भाष्यं कृतं गणेशस्य गीताया शान्तितम् परम् त्वदीयभाष्ययोगेन गीताज्ञा ब्राह्मणादयः बभूवुर्गाणपत्याश्च त्वच्छिष्यास्ते मुने यादृशं गणनाथेन कथितं तादृश्यं प्रभो त्वया ज्ञातं न सन्देहो गणेशस्त्वमदो मतः गणेशगीताहार्दं यद्गणेशश्च वरेण्यकः त्वं त्रयः सम्मदाशास्त्रे जानते पूर्णयोगदः धन्येन येन भाग्येन दृष्टं ते पादपङ्कजं विद्याव्रततपोदानं पितरौ कुलमेव मे यशो राज्यादिकं सर्वं धन्यं ते पाददर्शनाद न ह्यल्पुण्ययोगेन दर्शनम् योगिनाम् भवेद अधुना वद मे ब्रह्मन् गणेशस्य यथा विधि पूजाम् बाह्याम् तथान्तर्याम् गाणपत्यप्रकारदः एवम् पृष्टो महायोगी गार्ह्यः सर्वार्थको विदः तम् जगाद सुहर्षेण गणपत्यो महायशाः गार्ग्य उवाच अत्र ते कथयिष्यामि चेदिहासम् पुरातनम् गृत्समदस्य विप्रस्य सम्युतं नृप वाचक्नविस्तपो निष्ठो बभूव परमार्थविद तस्य पत्नी मुकुन्दा वै वनमध्ये स्थितौ चोभौ तत्राकस्मात् समागदः रुक्मा गदो नृपो भूप मृगया सक्तचेतसा क्षुधा तृषायुधो राजा भ्रष्टसार्धो द्विजाश्रमं प्रविश्य दं प्रणम्यैव सस्त्रीकं संस्थितो भवद तस्मिन्काले द्विजसोऽपि मध्याह्ने कर्मकारणाद् निर्जगामाश्रमाद्वाचन् महायशाः गदे मुनौ नृपस्तत्र जगाद देहिमे मे जलं माधर्मुकुन्दे श्रान्ताय चाकुलाय क्षुधादृशा तस्य तद्वचनं श्रुत्वा मुनिपत्नी सुविह्वला दृष्ट्वा नृपवरं तं च कामबाणार्दिदावदत् मुकुन्दो वाच त्वत्समं पुरुषं क्वापि नपश्यामि पश्यामि नृपात्मज त्रैलोक्येदो महाभागमां भजस्व सुविह्वलां नो चेत्प्राणागमिष्यन्ति कामबाणैर्हदा मम इत्युक्त्वा तं नृपं साधु चुचुम्बे तदो ततो भिदो राजा धृत्वा दूरे समाक्षिपद् जगाद तां मुनेः पत्नीं व्यभिचाररतां वचः रुक्माङ्गद उवाच सर्वेषां गुरवो देविभ्राह्मणानात्र संशयः पुत्रतुल्या वयं सर्वे त्वदीयाः पापकारिणि तत्र विघ्नेश्वरे सक्दा न चलन्ति कदाचन परस्त्रियं समालोक्य मातृबुद्धिकरा मदाः एवं निर्भ्यतां राजा निःसृतः शोकसङ्कुलः आश्रमात्सा शशापैव तं नृपं काममोहिता कुष्ठी भव महादुष्ट सकामां त्यजसि स्त्रियं मोहिदां पाप कर्मत्वं कठिनोऽसि सुदुर्मदे तस्या शापस्य योगेन स्वेदकुष्ठीबभूवः रुक्माङ्गदो वनेगत्वा गत्वा सस्मारद्विरदाननं ततो महायोगी नारदस्तत्र चागदः तं दृष्ट्वा प्रणनामादौ पप्र च विनयान्वितः रुक्माङ्गद उवाच कुष्ठनाशकरं तीर्थं क्षेत्रमौषधमेव च वदमेत् सर्वधर्मज्ञगाणपत्यप्रियप्रभो नारद उवाच इन्द्रेण तपसा देवो गणेशः भवत। भवत् सहस्रभगनाशार्थं स वरदो भवत् गणेशवरदानेन महेन्द्रस्तेजसायुधः योगयुक्तो पालयदत्रैलोक्यं सचराचरं तत्रतीर्थं सुविख्यादं सुविख्यातं गणेशपदलां चिन्तामणिर्गणेशश्च तेन संस्थापितोऽभवत् तत्र गत्वा महीपाल कुरुस्नानं च तत्क्षणाद् कुष्ठहीनसुवर्णस्त्वम् भविष्यसि न संशयः तत्र तीर्थप्रभावेण कुष्ठरोगविवर्जिताः भवन्ति स्वानन्दगास्तु नृपन्नास्त्यत्र संशयः ेवमुक्त्वा महायोगी नारदो गणपं स्मरन् गतः सोऽपि महाबुद्धिर्हर्षयुक्तो बभूवः तदप्रादः समायादा सेना तस्य महात्मनः तया सार्धम् जगामासौ विदर्भे तीर्थसेवकः चिन्तामणि भवं तीर्थं दृष्ट्वा राजा प्रजापदे कुष्ठहीनो बभूवाध सर्वैः संहर्षितो भवत तदस्नात्वा ससैन्येन यथा विधियुतः स्वयं पूजयामास चिन्तामणिं नृपात्मजः पूजयित्वा यथा दत्वा दानानि कृष्णशः संस्थितो मण्डपे राजा गणेशे भक्तिसंयुतः तत्राकस्माद्विमानं दुःसमायादं सुखप्रदं तत्र दूता गणेशस्य जगुस्थं नृपसत्तमं गणपत्या ऊचुः इदं विमानमारुह्य ससैन्यो नृपसत्तमाचलस्वानन्दलोके त्वं तीर्थस्नानप्रभावतः ततोदिहर्ष संयुक्तस्तान् प्रणम्यमःः पूज्यो वाच विचारज्ञो गणपत्यो नृपात्मजः रुक्माङ्गद उवाच भीमं मे गाणपत्यास्तु पितरं चाजु हासिनीं मादरं त्यज विग्नेशं कथं यामि त्वरान्विदः गाणेशानौविशेषेण तथा तं ते समब्रुवन् तयो नृपाध्यक्ष कुरु कुरू किल धुनाकिला। नेष्यामो मा कुरुसत्तमा। कुरु सत्तम स्नानमात्रेण स्वानन्ददायकं तीर्थमुच्यते ततोधिहर्षिदो राजा कुशान् गृह्य तयोः पुनः नाम्ना ग्रन्थिं समाबध्य चक्रे स्नानं यथाविधि ततो दिहर्षितालोका नगरस्थास्तथा पुनः स्नानं चक्रुर्जनानां ते आबालं स्वपचावधि तदस्ते यानमारुह्य कौण्डिन्यनगरं ययुः पुण्यं दत्त्वा जतान् सर्वान् गृह्य स्वानन्दमाययुः एवं तीर्थप्रभावेण नगरस्थजना गत्वा विघ्नेश्वरं दृष्ट्वा ब्रह्मभूता बभूविरे धर्मयुक्तो गणेशस्य भक्तो रुक्माङ्गदस्वयं स्वल्पकालेन निर्विघ्नो बभूव चलिदोऽपि सः गणेशभक्तमत्युग्रं ये चलन्ति नराधमाः तेषां तु निष्कृधिर्नास्ति दुःखं भुञ्जदिदारुणं रूक्माङ्गदमुकुन्दा सा चलयित्वा विशेषदः यागदिश्च तया प्राप्ता तां शृणुष्वमहीपदे ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते रुक्माङ्गदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः ॐ